न शस्त्रेण न शास्त्रेण गिरिणापादपेन च न शुष्केण चा। न, न चार्द्रेण भूमौ वा रात्रौ वा दिवसेऽपि वा नान्तर्वा बहिर्वापि स्याद्वधूमे पितामह पशुभिर्वा मृगैर्न पक्षिभिर्वा सरीसृपैः ददासि चेद्वरानेतान् देवदेव वृणोम्यहम् ब्रह्मोवाच एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः सर्वकामान् वरांस्तात प्राप्स्यसे त्वं न संशयः भीष्म उवाच एवमुक्त्वा स भगवानाकाशेन जगामः रराजब्रह्मलोके स ब्रह्मर्षिगणसेवितः ततो देवाश्च नागाश्च गन्धर्वामुनयस्तथा वरप्रदानम् श्रुत्वा ते ब्रह्माणमुपतस्थिरे देवावूचुः वरेणानेन भगवन् बाधिष्यति स नोऽसुरः तत्प्रसीदस्व भगवन् वधोऽस्य प्रविचिन्त्यताम्